एवमेते महोत्पाताः प्रादुरासन् दुरासदाः भरता वैशंपायन भावाय राजन् दुर्मन्त्रिते तव वैशम्पायन उवाच एवम् प्रवदतोरेव त्रयोस्तत्र विशाम्पते धृतराष्ट्रस्य विदुरस्य च धीमतः नारदश्च सभा मध्ये महर्षिभिः परिवृतो रौद्रम् वाक्यमुवाचः इतश्चतुर्दशे वर्षे विनश्यन्तीह कौरवाः दुर्योधनापराधेन बलेन च इत्युक्त्वादिवमाक्रम्य क्षिप्रमन्त ब्राह्मीन् श्रियम् सुविपुलाम् सत्तमः धृतराष्ट्र उवाच किमब्रुवन्नागरिकाः किम् वैजानपदा जनाः मह्यम् तत्त्वेन चाचक्ष्व छत्रः विदुर उवाच ब्राह्मणा क्षत्रिया वैश्या शूद्रायेण्येवदन्यथ तच्छृणुष्व महाराज वक्ष्यते च मया तव हा हा गच्छन्ति नो नाथा समवेशध्वीदृशम् इति पौरासु दुःखाता शोचन्ति स्म समन्ततः ततः हृष्टमि वा पूजम् गतोत्सवमि वाभवत् सस्त्री वृद्ध सर्वे चासन्निरुत्साहः व्याधिना बाधिता यथा पाथान प्रतिनरा पाठा प्रतिनानी चिंताशोकपरायणा त्र कथाचक्रुस्सा पर